हरि ओं श्रीसीता रामचन्द्राभ्य नमः अथ श्रीमद्वाल्मीकि रामायणे अयोध्याखण्डे पञ्चाधिकशतमा सर्गः श्रीरामम् प्रति अयोध्यां गत्वा राजग्रहणार्थं भरतस्य अनुरोध जीवनस्य अनिश्चतां निरूपयत श्रीरामस्य पितृ निधन हेतु कर्तव्य इति भरतम् प्रत्युपदेशस्तथा श्रीरामेण पितुराज्ञा पालनार्थम् एव राज्यम् वनवासा वनवासायैव स्वाभिप्राय प्रकटनम् ततः पुरुषः सिंहराणाम् वृतानां तैः सुहृदग्रणे शोचताम् एव रजनी दुःखेन व्यत्यवर्तत रजन्याम् सुप्रभातायाम् भ्रातरस्य सुहृद्वृतः हुतं जप्यम् कृत्वा राममुपागमन् तूष्णीं ते तमुपासेन न कश्चित् किञ्चिदब्रवीत् भरतस्तु सुरन् मध्ये रामम् वचनमब्रवीत् सांसिता मामिका माता दत्तम् राज्यम् इदम् तद्ददामि तवैवाहम् भुङ् राज्यं मकण्डकम् मतेवाम्बुवेगेन भिन्ना से जला दुराव सदन राज्य खंडम गतिर इवाश्व पद्धत अनुगं न शक्ति गतिम तव महीपते सुजीवम उपजीव्यते, राम से नुर्जीव यत् परा नोपजीवति यथासूरोपितो वृक्ष पुरुषेण विवर्धितः रस्वकेन दुरारोहस्कन्धो महाद्रमः स्व स्वयदा पुष्पितो भूत्वा फलानि न विदर्शयेत् साम्नानुभवेत् प्रीतिम् यस्य हेतो प्ररोपितः एषोपमा महाबाहु तदर्थं वेत्तुमर्हसि यत्र त्वमस्मान् वृषभौ भट्टा भृत्यान्नषाधिः श्रीयस्त्वं हरज पश्यन्त्वग्र्याश्च सर्वज प्रतपन्तं निवादित्यम् राजस्थितम् मरिन्दमम् तथा न एकाकुत्थ मत्तान्नर्दन्तु कुञ्जरः अन्तःपुरगता नन्दन्तु सुसमाहितः तस्य साधनुमन्य नागर विविधः जनः भरतस्य विचत्वा रामं प्रति अनुयाचतः तम् एवं दुःखितं प्रेक्ष्य विलपन्तम् यशस्विनं रामः भरतम् समाश्वासयदात्मवान् नात्मने कामकारो पुरुषोऽयम् नेश्वरः इतश्चेतरतन्तश्चैनम् कृतान्त परिकर्षति सर्वेक्षयान्ता निचयः पतनान्त समुच्छ्रयः संयोगाभिप्रयोगान्तः मरणान्तम् च जीवितम् यथापरानाम् पक्वानां नान्यत्र पतनाद्भयम् एवं नरस्य जातस्य नान्यत्र मरणाद्भयम् यथागारम् दृढस्थूणम् विजीर्णम् भूत्वापसीदति तथावसीदन्ति जरा मृत्युवशम् गतः अत्येति रजनीया तु सा न प्रतिनिवर्तते यात्येव यमुना पूर्णम् समुद्रम् उदकार्णवम् अहोरात्राणि गच्छन्ति सर्वेषाम् प्राणिनामिह आयुंषि क्षपयन्त्याशु ग्रीष्मे जलम् विवांशवहे आत्मानम् अनुशोच त्वम् किम् मन्यम् अनुशोचसि आयुस्तु हीयते यस्य स्थितस्यास्य गतस्य सहैव मृत्युर्वजति स मृत्युर्निषीदति गत्वा सुदीर्घमध्वानम् स मृत्युर्निवर्तते गात्रेषु वलय प्राप्ता श्वेताश्चैव शिरुरुः जरय पुरुषो जीर्ण किम् हि कृत्वा प्रभावयेत् नञ्चोदितादित्ये नन्नञ्च स महेत् मितेहनि आत्मनो नावबुध्यन्ते मनुष्या जीवितक्षयम् पृश्यन्ति ऋतुमुखम् रुष्व नवम् नवमिव गतम् ऋतूनाम् परिवर्तेन प्राणिनाम् प्राणसंक्षयः यथा काष्ठम् च काश्थांच काष्ठम् च समेयाताम् अर्णवे समेत्य तुपेयाताम् कालमासाद्यकञ्जन एवम् भार्या च पुत्रा च ज्ञातय समेत्य विवधावन्ति ध्रुवो येषाम् विना भवे नात्र कश्चित् यथाभावम् प्राणी समतिवर्तते दे। तेन तस्मिन् न सामर्थ्यम् प्रतस्यास्य नु शोचतः यथा हि सार्थम् गच्छन्त गृह्यात् कश्चित् पथि स्थितः अहमप्यगमिष्यामि पृच्छतो भवतामिति एवम् पूर्वैगतो मार्ग पैत्रो पीता महे कदम शोचे ये नास्ती व्यति पतमानस्य स्त्रोस सुवा से आत्मा सुखे निख सुख भज प्रजास्मता धर्म धर्मात्मा शुषुभ कृष्ण कृतभ चाप्त दक्षिण दूत पापो गर्गम पिता न पृथ्वी प्रजा पिता अर्थ धर्मेण पिता नीदिवंगत है कर्मभुष्ट क्रतुभचा दक्षिण सर्गम दशर प्राप्त पिता न पृथ्वीपति भू विधाचा भोगाचावाप्य पुष्कल उत्तमं चायुरासाध्य स्वर्गतः पृथ्वी पतिः आयुर्वृत्तममासाध भोगान्नपि च राघवे न शोचितात् स्वर्गतः सत्कृत सजीर्णमानुषं देहम् परित्यज्य पिता हि नः देवी तन्तु नैवं विदः कश्चित् प्राज्ञा शोचितमर्हसि तद्विधो मद्विधश्चापि श्रुतवान् बुद्धिमत्तरः एते बहुविधा शोकाय विलापय रुदिते तदः हि धीरेण सर्वावस्थासु धीमताय स स्वस्थो भवमाशोको यात्वा तथा पित्रा नियुक्तोऽसि वशीनवदतामर यत्राहम् अपि तेनैव नियुक्ते पुण्यकर्मण तत्रैवाहम् करिष्यामि पितुरार्यस्य शासनम् न मया शासनम् तस्य त्यक्तुम् न्याय्यम् अभिन्दम् सत्वयापि सर्वे बन्धुः समर्पिता तद्वच पितुरेवाहम् सम्मतम् धर्मचारिणम् कर्मणा पालयिष्यामि वनवासेन राघवे धार्मिकेण नृशंसेन नरेण गुरुवर्तिन भवितव्यं नरव्याघ्र परलोकं जिगीषत आत्मानम् अनुतिष्ठत्तम् स्वभावेन नृषभ निशाम्य तु शुभं वृत्तम् पितुर्दशरथस्य न इत्येवमुक्त्वा वचनम् हरस्मा पितुर्निदेश प्रतिपालनार्थं यवीय संघातरमार्थ वस्त्रे प्रभुर्मूर्ता राम रामे इत्याशि श्रीमद् रामायणे वाल्मीकि श्रीसीतारामचन्द्रर्मणमस्तु